भद्रम् गर्णेभिः शृणुजाबदेवाः भद्रम् पश्येवाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुभागम्सस्तनोभिः व्यशेवदेवहितै यदायुः स्वस्थित इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्य अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः शान्तिः शान्तिः ओ नमो ब्रह्मणे नमो अस्त्वग्नजे नमः पृथिव्यै नम ओषधीभ्यः नमो वाचे नमो वाचस्पतजे नमो विष्णवे बृहते करोमि ॐ शान्तिः शान्तिः शान्तिः ॐ नभो वाचे याचोदिता याचानुदिता तस्यै वाचे नभो नमो वाचे नमोवाचस्पतजे नभऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो मामामृषजो मन्त्रकृतो मन्त्रपतजः परा दृंवाहमृषीन्मन्त्रकृतो मन्त्रपतीन् परादां वैश्वदेवीं वाचमुद्यासगुम् शिवामतस्ताञ्जुष्टान् देवेभ्यः शर्म वेद्यौ शर्म पृथिवी शर्म शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्म प्रजापति भूतम् वदिष्ये भुवनम् वदिष्येतेजोवदिष्ये यशोवदिष्ये तपोवदिष्ये ब्रह्म वदिष्ये सत्यम् वदिष्येतस्मात् अहमिदमुपस्तरणमुपस्तृण उपस्तरणम् मे प्रजायै पशूनाम् भूजादुपस्तरणमहम् प्रजायै पशूनाम् भूजासम्प्राणापानौ मृत्यो पातम् प्राणापानौ वामाहाशिष्टम् मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुमदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यादगुम् शुश्रूषेण्याम् मनुष्येभ्यस्तम् वा देव अवन्तु शोभाजी पितरोऽनुमदन्तु न्तिः